श्रीहरये नमः अत अष्टादशोऽध्यायः सोत उवाच यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुधरे मृतः अनुग्रहाद् कृष्णस्य अद्भुतकर्मणः ब्रह्म को भोद्दिधात्यस्थो दक्षकात्प्राणविप्लवात् न सम्मुमोहोरुभयात् भगव्यर्ताश उत्सृजत् सर्वतःसङ्गं विज्ञाधाजितसंस्थितिः वैयासकेर्जहौ शिक्षो गङ्गायां स्वं कलेवरं नूतमश्लोकवार्तानां जुषतां तद्गथामृतं स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तद्वधाम्बुजं तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वतः यावदीशो महानुर् ्याम् अभिमन्यव एकराट यस्मिन्नखनियर्ह्येव भगवान् उत्ससर्जकं तथैवेहानुवृत्तोऽसौ अधर्मप्रभव कलिहे नानुद्वेष्टिकलिं सम्राट् सारङ्ग इव कुशलान्यासु सिद्ध्यन्ति नेतराणि कृतानि यत् किं नु बालेषु सूरेण कलिनाधीरभीरुणा अप्रमत्थप्रमत्तेषो यो भृको दृशु वर्तते उपवर्णितमेतत्त्वः पुण्यं परीक्षितं मया वासुदेवकथो भेदम् आज्ञानं यदपृच्छथ या हा कथ भगवतः कथनीयो कर्मणः गुणकर्माश्रया भुंभिः संसेव्यास्ता बुभूषुभिः ऋषयवूच सूतजीवसमासों यशाश्वतेर्विशतं यशः यस्त्वं संससि कृष्णस्य मर्त्यानाम् अमृतं हीनः कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनां भवान् आपाययति गोवि तुलयामलवेनापि न स्वर्गं न पुनर्भवं भगवत्सङ्गि सङ्घस्य मर्त्यानां किमुदाशिषः को नाम तृप्यधेत्रसवित्कथायां महत्तैमकान्तपरायणस्य नान्दं गुणानामगुणस्य जग्मुर्योगेश्वराय भव पद्ममुख्याः तन्तो भवान् वै भगवत्प्रधाना ो महत्तमैकान्तपरायणस्य हरेरुधारं चरितं विशुद्धं शुश्रूषतां नो वितनो तु विद्वन् सवै वै महाभागवतः परीक्षेत् येनापवर्गाक्यम् अधः प्रबुद्धिः ज्ञानेन वैयासखि सब्दि तेन भेजे गगेन्द्रध्वजबाधमूलं तन्नः परं पुण्यम् असंवृत्तात्माज्ञानम् अद्यद्भुतयोगनिष्ठम् आख्यान्यनन्दाचरितोपवन्नं पारीक्षितं भागवताभिरामम् सूत उवाच अहो वयं जन्मभृतोऽद्यः स्म वृद्धानुवृद्ध्यापि विलोमजाताः तौष्कुल्यमादिं विदुनोति शीघ्रं महत्तमानामभिधानयोगः कुतः पुनर्गृणधो नाम, नाम तस्य महात्मैकान्तपारायणस्य योऽनन्तशक्तिर्भगवानन्तो महद्गुणत्वात्यमनन्तमाहूः एतावतालम् <laughs> अनुसूचितेन <laughs> गुणैरसाम्यान <laughs> अधिसायनस्य हृत्वेतरान् प्रार्थयतो विभूतेर्यस्याङ्ग्रिरेणुषतेन भीप्सो अथापि यत्पात न कावसृष्टं जगद्विरिञ्चोपकृतार्हणाम्बः का शेषं पुनानि अन्यतमो मुकुन्तात् को लोके भगवत्पदार्थः यत्रानुरक्ता सहसैव धीरा व्यबोह्य देहादिषु सङ्घमूटं व्रजन्ति तत् ृष्ठोर्यमणो भवत्मभगमोऽत्र यावान् समं विष्णुगतिं व्यपश्चितः एकधातनुरुद्धं व्यविचरन् मृगयां वने मृगाननुगतः श्रान्तच्युतिस्तश्रुतितो भृशम् जलाशयं चक्षान प्रविवेशतमाश्रमं दतर्शमुनिमासीनं शान्तं मिलितलोचनं प्रतिरुद्धेन्द्रियप्राणमनोभुद्धिमुपारथं सानत्रयात्परं प्राप्तं ब्रह्मभूतम् अविक्रियं विप्रकीर्णजटाच्छन्नं रौरवेण अजिनेन च विशुष्यत्तालुरुदकं तथा भूतं मया च अलब्धतृणभूम्याति रसं प्राप्तार्घ्यसूनृतः अवज्ञातमिव आत्मानं मन्यमानश्चुकोभः अभूतः पूर्वसहसा शुद्रुभ्याम् अर्थिदात्मनः ब्राह्मणं प्रत्यभूत् ब्रह्मन् मत्सरो गतासु मुरगं मृषा विनिर्गच्छन्तनुष्कोट्या निधाय पुरमागमत् येष किं निभृधा करणो मीलिते मृषा समाधिरहोस्वित् किं नुष्यात् तस्य पुत्रोऽति तेजस्वी विहरन् बालकोर्भगैः राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेतमब्रवीत् अहो अधर्मबालानां पीव्रां बलिभुजामिव स्वामिन्यहं यद्धासनां द्वारबानां सुनामि वा ब्राह्मणे क्षुत्रभन्धुर्हि द्वारपालो निरूपितः स कथं तद् गृहे द्वास्थसभाण्डं भोक्तुमर्हति कृष्णे गते भगवति शास्तरी उत्पदगामिना तद्भिन्नसेतोनध्याहं साष्मि पश्यत मे बलम् इत्युक्त्वा रोषतां राक्षो वयस्यान् ऋषिबालकः कौशिकाबहुपस्पृश्य वाग्वज्रं विससर्जः इति लङ्घितमर्यातं तक्षकः सप्तमे दक्षत्ति स्मकुलाङ्गारं चोदितो मे दधत्रुहं सर्पगळे वरं पितरं वीक्ष दुःखार्तोमुत्थघण्टोरुरोदः स वा आङ्गिरशोभ्रं कन् श्रुत्वा सुतविलापनम् उन्मील्यसनकैर्नेत्रे धृष्ट्वा स्वांसे विसृज्य पुत्रम् केनवाते वत्स कस्माद्धिरोषिते केन वा ते वक्रतमित्युक्त संयवेदयत् अहोपदां को महद्यज्ञते कृतम् अल्पीयसिद्ध्रोकबुरूर्धमोदृतः नवेर्नृपिर्नरधेवं पराज्ञं संमातुमर्हसि अयविग्भवबुद्धे यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्रात्राणि अगुधो भयात् व्रजाः अलक्ष्यमाणे नरदेवनाम्नी रथाङ्कबाणाभयमङ्कलोकः तथा किशौरप्रशुरो विनङ्क्षयति अरक्ष्यमाणो विवरूपतक्षणाथ त्यनः पापमुपैत्यनन्द्वयं यन्नष्ट नाथस्य बसोर्विलुम्पगात् परस्परं घ्नन्ति सभन्ति बृजते पशून् स्त्रियोऽर्तान् पुरुदस्य व्यो जनाः विलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः तथोर्थकाम अभिनिवेशिदात्मनां सुनां कपीनामिव वर्णशङ्करः धर्मपालो नरपतिस्थु सम्भ्रडृहश्रवाः साशान्महाभगवतो राजर्षेर्हय मेधयाट शुद्रुश्रमयुतो दीनो नैवा स्मश्चापमर्हति अपापेषु स्वभक्त्येषु बालेन अपक्वबुद्धिनां कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति तिरस्कृता अपि नास्य तद्भक्ता प्रभवोभिः इति पुत्रकृताघेन सोऽनुदब्धो महामुनिः स्वयं विभ्रकृतो राज्ञानैवागं तत चिन्तयत् प्रायश सात भूलोके पर्द्वन्व योजिता न व्यथंती न हृष्यत्मा गुणाश्रय काीमद महापुराणे प्रथमस्कंते बिभ्र सापोपल भणम अठादोध्या गोपिका जीवन स्मरण गोविंद गोविंद सद्गुमाज के जय